हरि ओं श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे तृतीयस्कन्धे दशमोऽध्यायः जन्मे दे उवाच कोऽसौ सत्यव्रतो नाम ब्राह्मणो द्विजसप्तमय कस्मिन् देशे समुत्पन्नमे कथं तेन श्रुतशब्द कथमुच्चारित पुनर् सिद्धे च कीदृशी जाता तस्य विप्रस्य तत्क्षणात् कथं तुष्टा भवानी सा सर्वज्ञा सर्वसंस्थिता विस्तरेण वदस्वाद्य कथामेतां मनोरमां सुवाच इति पृष्ट तदा राज्ञां व्यास सत्यवती सुतह। उवाच परमोदारं वचनं रसवच्छुचि व्यास शृणुराजन् प्रवक्षामे कथाम् पौराणिकीम् शुभाम् श्रुता मुनि समाजेषु मया पूर्वम् कुरुद्व एकदाहं कुरु श्रेष्ठ कुर्वन्ति साटनम् शुचि सम्प्राप्तो नै विचारण्यम् पावनम् मुनिसेवितम् मुनिन् सर्वान् स्थितस्तत्रैव विधिपुत्रास्तु यत्रासन् जीवन्मुक्ता महावृतः कथाप्रसङ्गीत् तत्र विप्रसमागमे जमदग्नि सुप्रच्छनेवं सभास्थित जमदग्नि उवाच सन्देहोऽस्ति महाभाग मम चेतसिताप्रसाह समाजेषु मुरीनां वै निसन्देहो भवाम्यहम् ब्रह्मा विष्णु तथा सुरुद्रा भगवा वरुणो नलः कुबेर पवनस्रष्टा सेनानिश्चगणाधिपय सूर्योऽ भगपूजा निशानार्थ गृहसभा आराधनीयतमः कोत्र वाञ्छितार्थ फलप्रदः सुखे सेव्यश्च सततं चाशुतोषश्च मानदा भवन्तु मुनय क्षीरं सर्वज्ञातुव्रता एवं प्रश्ने कुत्र कृते तत्र लोमशो वाक्यमब्रवीत् जमदग्ने शृणुष्वत् यत्कृष्टं वै सयाधुना सेवनीय तमाशक्ति सर्वेषां शुभमिच्छताम् पराप्रकृति आद्या च सर्वगा सर्वदा शिवा देवानां जननि सैव ब्रह्मादीनामात्मनाम् आदिप्रकृति मूलं स संसार पदपस्य वै ोच्चारिता देवी ददान्ती किवाञ्छितम् सर्वदैवादर्चित्ता सा बलदानाय सेविता इतिहासम् प्रवक्ष्यामि शृण्वन्तु मुनयशुभम् अक्षरोच्चारणा देव यथा प्राप्तम् वियेन वै कोसलेषु द्विज कश्चिद् देव दत्तेति विश्रुतः अनपत्य चकारेष्टिम् पुत्र ये विधिपूर्वकम् ीरमासाय कृत्वा तत्र कर्मा विशारदान् कृत्वा वेदीं विधानेन स्थापयित्वा विभावसु पुत्रे किं विधिवत् तत्र चकार द्विजसत्तमः ब्रह्माणं कल्पयामास श्रोत्रम् मुनिसत्तमम् अध्वर्युं याज्ञवल्कं च होतारं प्रस्तोतारं तथा उद्गातारं च गोफिलम् सभानन्यान् मुनीं कृत्वा विधिवत्र ददो वसु उद्घाता सामग्रेष्ठ सप्त स्वर समन्वितम् अनन्तरं बगाय तु सरितेन समन्वितम् ददास्य स्वरभङ्गते श्वासे देवदत्त च गोपाशु गोभिलम् प्रत्युवाचः मूर्खोऽसि मुनि मुख्याद्य सर्वभङ्गत्वया कृतः काम्यकर्मणि सञ्जाते पुत्रार्थं यजतश्च मे गोभिरतु तदोवाच देवदत्तं सुगोपितः मूर्खस्थे भविता पुत्र षट शब्द विवर्जितः सर्वप्राणि शरीरे तु श्वासोच्छ्वास महामते न मेत्र दूषण कि वचन तस्त्म शापाधी तो कथम क्रुद्धतिप्रेन्द्र वृथाई निरागसी अक्रोधना ही मुनो सुखदा सदा सर्वे पराधे विप्रेन्द्र कथम चप्त अपुत्रोऽहं सप्तप्ता प्राक् तापयुक्तः पुनः कृतः मूर्खपुत्रात् पुत्रं तं वरं वेदविदो विदुः तथापि ब्राह्मणो मूर्ख सर्वेषां निन्द्य एवहि पशुव शूद्रवटैव न योग्य सर्वकर्मसु किं करोमि मूर्खेण पुत्रेण विजसत्तमः यथा शूद्र तथा मूर्खो ब्राह्मणो नात्र समुचयः न पूजार्हो न दानार्हो निन्द्यश्च सर्वकर्मसु देशे वैवसमानश्च ब्राह्मणो वेदवर्जितः करधय शूद्रवच्च मन्तव्यभुजा नाशने पितृकार्येषु देवकार्येषु सद्विजः मूर्खसमुपवेश कार्यस्य फलमिच्छता प्राज्ञा शूद्रसमो ज्ञेयो न योज्य सर्वकर्मसु कषकस्तु द्विज कार्यो ब्राह्मणो वेदवर्जितः विना विप्रेण कर्तव्यं श्राद्धं कुशतेन कुश वै न तु विप्रेण मूर्खेण श्राद्धं कार्यं कदाचन आहारादधिकं न दातव्यम् अपण्डिते ताता नरकमाप्नोति गृहीता तु विचेशतः दिग्राज्यं तस्य राज्ञो वै यथ देशे बुधा जना पूज्यन्ते ब्राह्मणा मूर्खा दानमानादिकैरपि आसने पूजने दाने यत्र भेदो, भेदो न जानवपि मूर्खपण्डितयोर्भेदो ज्ञातव्यो विबुधेन वै मूर्खा यत्र सुगर्भिष्ठा दानमान परिग्रही तस्मिन् देशेन वक्तव्यं पण्डितेन कथञ्चन असताम्पकाराय दुर्जनानाम् विभूतय पिचो मन्दय फलाढ्योऽपि काकैरेवोपभुज्यते स्वप्रो वेद वेदाभ्यासं करोति वै क्रीडन्ति पूरुजातस्य स्वर्गे प्रमुदिता किल गोभिलातः किमुक्तं वै तया वेदविदुत्तमा संसारे मूर्खपुत्रत्वं मरणान्ततिगर्हितम् कृपां कुरु महाभागशापस्यानुग्रहं प्रति दीनोद्धरणशक्तोऽसि पतामि तव पादयोः गोमच उवाच इत्युक्त्वा देव दत्तस्तु तस्य पादयोः सुन्दिन रुदत्यर्थं कृपणशास्त्रुलोचनः गोभिरस्तु तदा तत्र दृष्ट्वा दं दं दीनचेतसं क्षणकोपा महान्तो वै पापि जलं स्वभावत शीतं पावकाणं भवति तत् शीघ्रं तद्विना शिशिरं भवेत् दयावान् गोपिलस्ताह देव दत्तं सुदुःखितं मूर्ख भूत्वा सुधत्ते वी। वै भविष्यति इति दत्त के तस्या रोपवती सती गर्भम दधार कालेमा गर्भाध कर्म चकार विधि पुंसवन विधानंज शुंगारण ोन्नयनञ्च कृतम् द्वेदविधानेष्टिम् सफलां तथा शुभेऽन्ने शुशुभे पुत्रम् दिने लग्ने शुभे चात कर्मचकार पुत्रदर्शनकम् कृत्वा नाम कर्मचकार च उतथ्य इति पुत्रस्य कृतम् नाम पुरा विरा स्वचाष्टमे तथा वर्षे शुभे भवे शुभवासरे तस्योपनयनम् कर्म चकारे विधिवत्पिता वेदमध्यापय मास गुरुत्वम् वै प्रतिष्ठितं नु चारे तथोत्तथ्यसितो मुग्धवत्तदा बहुधा पाठितपित्रा न दधार मतिं च मूढवत् तिष्ठतेत्यर्थं तं शुशोच पिता सदा एवं कुर्वन् तदाभ्यासम् जातो द्वादशवार्षिकः न वेद विधिवत् कर्तुम् सन्ध्यावन्दनकम् विधिम् मूर्खो भूदिति लोकेषु गता वार्ता तिवित्तरा ब्राह्मणेषु च चूच सर्वेषु तापसेश्वतरेषु च जहासलोक तम् विप्रम् यत्र तत्र मने पिता माता निन्दाथे मूर्खं तत्सेन् निन्दितोऽ जरे कामम् पितृभ्याम् अथ बान्धवै वैराग्यो जगाम्प्ययसौ अन्धो वरस्तथा पङ्गु न मूर्खस्तु वरस्तुतः इत्युक्तो सु पितृभ्यां वै विवेश काननं प्रति गङ्गातीरे शुभे स्थाने कुत्वमनोत्तमं वन्यामूर्तिं च संकल्प्य स्थितस्तत्र समाहितः नियमं च परं कृत्वा नासत्यं प्रब्रवीम्यहम् स्थितस्तत्रा श्रे ब्रह्मचर्य व्रतो इति श्रीमद्दैवी महापुराणे षादश्र्यां संहितायाम् तृतीयस्कन्धे सत्यवताख्यानवर्णनम् रामदशमोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु